श्रीहरये नमः अथ षष्ठोऽध्यायः ब्रह्मो वाचा वाचां वन्ह्येर्मुखं क्षेत्रं छन्दसां सप्त धातवः जिह्वा सर्वरसस्य च सर्वासूनां च वायोश्च तन्नासे परमायणे अश्विनो रोषधीनां च घ्राणो मोदप्रमोदयोः रूपाणां तेजसां चक्षुर् दिवः सूर्यश्च साक्षिणे करुणौ दिशां च तीर्थानां श्रोत्रमाकाशब्दयोः तत् गात्रं वस्तुसाराणां सौभगश्च च भाजनं त्वगस्य स्पर्श वायोश्च सर्वमेधस्य चैव हि रोमाण्युद्भिज्जजातीनां यैर्वायज्ञस्तु सम्भृतः केशमश्रुनखान्यस्य शिलालोहाभ्रविद्युतां बाहवो लोकपालानां प्रयासक्षेमकर्मणां विक्रमो भूर्भुभस्वच्च क्षेमस्य क्षरणस्य च सर्वकामवरस्यापि हरेश्चरण अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः पुंसिष्णसुपस्तस्तु प्रजात्यानन्दनिर्वृतेः पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद हिंसाया निर्वृथेर्मृत्योर्निरस्य गुतः स्मृतः पराभूतेरधर्मस्य तमसश्चापि पश्चिमः नाढ्यो नतनदीनां तु गोत्राणामस्ति संहतिः अव्यक्तरससिन्धूनां भूतानां निधनस्य च उदरं विदितं पुंसो हृदयं मनसः पदं धर्मश्च मम तुभ्यंश्च भवस्य च विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् अहं भवान् भवश्चैव तैमे मुनयोग्रजाः सुरासुरनरानाघा खगामृगसरीसृपाः गन्धर्वाप्सरसो यक्ष रक्षो भूतगणोरगाः फसवक्पितरः सिद्धा विद्यात्रा शारणाद्रुमाः अन्ये च विविता जीवा जलस्तलनभौकसहान् ग्रहर्षकेतवस्था स्थढितस्तनयित् नवः सर्वं पुरुष एवेतं भूतं भव्यं तेन मावृतं विश्वं पितस्तिम् अधितिष्ठति स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ एवं विराजं प्रतपं तपत्यन्तर्बहिः पुमान् सोमृतस्याभयस्येषु मर्त्यमन्नं यतत्यकाद महिमैष तथो ब्रह्महन् पुरुषस्य धुरत्ययः पादेषु सर्वभूतानि पुंसस्थितिपधो विदुः अमृतं शेमं अभयं त्रिमोर्ध्नो धायिमूर्धसु पादास्त्रयो बहिश्चासन् अभ्रजानां य आश्रमा अन्तस्त्रिलोक्यास्तव भरो गृहमेतो बृहद्व्रतः श्रुतिविचक्रमे विश्वं ताशनानशने उभे यद विद्या च विद्या च यस्मादण्डं विराजज्ञे बोधेन्द्रियगुणात्मकः तद्ध्रव्यमद्यघात् विश्वं गोपिः सूर्य इवातपन् यथास्य नाभ्यां नळिनात् अहमासं महात्मनः नाभितं यज्ञसम्भारान् यज्ञस्य पसवः इदं च देवयजनं कालश्चोरुगुणान्वितः वस्तून्योषधयक्स्नेहासलोहं मृधो रसलोहं रुचो यजुंषि सामानि चातुर्होत्रं च सत्तमा नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च देवतानुक्रमः कल्प सङ्कल्पस्तन्त्रमेव गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणं पुरुषावयवैरेते सम्भारः सम्पृधा मया इति सम्भृत संभार तमेव पुरुषं यज्ञं तेनैवायजमीश्वरं ततस्ते भ्रातर प्रजानां पतयो न वा अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ततश्च मनवःकाले ईजिरे ऋषयो परे पितरो विबुधा दैत्या मनुष्याक्रदुभिर्विभुं नारायणे भगवति तदिधं विश्वमाहितं गृहीतमायोरुगुणसर्गतावगुणस्वतः सृजामि तन्नियुक्तोऽहं हरो हरति धातृशहा विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृग् इति ते भिहितं दात यथेधम् अनुपृच्छसे नान्यद्भगवतः किञ्चित् भाव्यं सदसदात्मकं न भारतीमेङ्घ मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषगदिः न मे हृषीकाणि पतन्ति असत्पते यन्मे हृदौत्कण्ठयवता धृतो सोहं सोऽहं समाम्नाय मयस्तपोमयन् प्रजापतीनाम् अभिवन्धितः पतिः आस्थाययोकं निपुणं समाहितस्थं नाद्यगच्छन् यथा आत्मसम्भवः नतोऽस्म्यहं तच्चरणं समीयुषां भवश्चितं स्वस्त्ययनं सुमङ्गलं यो ह्यात्ममायाविभवम् अपर्यगाद्यथा नभस्वान्तमतापरे कुतः नाहं न यूयं गतिम् गतिं विदुहो न वामदेव किमुता परे विनिर्मितं चात्मसमं विचक्ष्महें यस्यावधारकर्माणि गायन्ति ह्यस्मदादयः नयं विदन्ति तत्त्वेन तस्मै भगवते नमः स एष आद्यपुरुष कल्पे कल्पे सृजत्यजहा आत्मा आत्मात्मन्यात्मनात्मानं संयच्छति चपाति च विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितं सत्यं पूर्णमनाद्यन्तम् निर्गुणं नित्यमद्वयं रुषे वितन्ति मुनयः प्रशान्तात्मेन्द्रियासयाः यथा तथैव सत्तर्कैः स्थिरो दीयेत विप्लुतम् आद्योऽवधारः पुरुषः परस्य कालस्वभावसतसन्मनश्च द्रव्यं विकारो गुण विराट् स्वराट्स्तास्नुसरिष्णुभूम्नः अहं भवो यज्ञे इमे प्रजेशा दक्षाधयो ये भवधातयश्च दक्षा स्वर्लोकपाला खगलोकबालान् निर्लोकपाला स्थललोकपालाः गन्धर्वविद्याधरचारणे स ये यक्षरक्षोरघनाघनाथाः ये वारुणीनां वृषभापितॄणां दैत्येन्द्रसिद्धेश्वरधानवेन्द्राः अन्ये च ये प्रेतपिशासभूत कूष्माण्ड यथो मृगभक्षधीशाः यत्किञ्च लोके भगवन्मघस्व तोजः सहस्वत् बलवत् क्षमावत् श्रीह्री विभूत्यात्मवद् अद्भुतार्णं तत्त्वं परं रूपवधस्वरूपम् प्राधान्यथो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्थ्यभूम्नः आपीयतां कर्णकषाय सोषान् अनुग्रमिष्येत इमान् इति श्रीमद्भागवते महापुराणे द्वितीयस्कन्ते षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द